हरये श्रीहर शुकव अतोध्यावाच भगवानात्मनात्मानं राम उत्तमकल्पकैः सर्वदेवमयं देवमीज आचार्यवान्मकैः होत्रे ददादिशं प्राचीं प्रभुः अध्वर्यवे प्रतीचिं च उदीचिं सा यावती भूस्तदन्तर मन्यमान कृष्णम्हति निःस्पृहः इत्ययं तदलङ्कारवासुभ्यामवशेषितः तथा राज्ञै देही सौमङ्गल्यावशेषिता ते तु ब्रह्मण्य देवस्य वात्सल्यं वीक्ष्य संस्तुतं प्रीताक्लिन्नदि अप्रतं नस्त्वया किम्नु नु भगवन् भुवनेश्वर यन्नोऽन्तर्हृदयं विश्यतमोऽहंसि स्वरोचिषा नमो ब्रह्मण्यदेवाय रामाय कुण्ठमेधसे उत्तमश्लोकदौर्याय न्यस्त्यदण्डार्पिताङ्ग्रये कदाचिल्लोकजिज्ञासुर्गूटोरात्र्यामलक्षितः चरण्सो शृणोत्रामो भार्यामुद्दिश्च कस्यचित् नाहं स्त्रीलोभी विप्रया सीतां भजे पुनः इति लोकाद् बहुमुखाद् दूराराध्यातसंविदः पत्या सा त्यक्ता प्राप्ता प्राचेतशाश्रमम् आगते काले यमौ सा सुषवे सुतौ कुशोलभ इति ख्यातो दयोश्चक्रे क्रिया मुनिः अङ्गतश्चित्रकेतुश्च लक्ष्मणस्य आत्मजौ संवृतौ तक्षः पुष्कलयित्यास्ताम्भरतस्य महीपते सुबाहुश्रुतसेनश्च शत्रुघ्नश्च बभूवधुः गन्धर्वान् कोटिसो जज्ञे भरतो विजये दिशाम् दियं धनमानीय सर्वं राज्ञे न्यवेदयेत् शत्रुघ्नश्च पुत्रं लवणं नामराक्षसं। राक्षसं हत्वा मधुवने चक्रे मधुरां नाम वैपुरीं मुनौ निक्षिप्य तनयौ सीता भद्राविवासितां ध्यायन्ती रामचरणौ विवरं प्रविवेसः दश्रुत्वा भगवान् रामो रुन्धन्नभिधियाशुचः स्मरन्स्तस्या गुणास्तांस्तान् नासक्नो ध्रोतुमीश्वरः त्रीपुं प्रसङ्गये दादृक् सर्वत्र अपि ईश्वराणां किमुत ग्राम्यस्य गृहचेतसः तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत्प्रभुः त्रयोदशाब्दसाहस्रम् अग्निहोत्रं मखण्डितम् स्मरतां कृतिविन् यस्य विद्धं दण्डककण्टकैः स्वपादपल्लवं राम आत्मज्योतिरघात्ततः नेतं यशो रघुपते सूरयाञ्चयात्थ लीलातनो अधिकसां य जलति नमस्त्र रक्षोबधो झतिरस्त्रोक शत्रुने क्या यस्यामलं नृपसधस्तु यशोऽधुनापि गायन्ति अघग्नम् ऋषयोधिगिबेन्द्रपट्टं तम्ना कपालवसुपालकिरीटजुष्ट पादाम्बुजं रघुपतिं शरणं प्रभध्ये स यैः स्पृष्टोभिदृष्टो वा संविष्टोऽनुगतोऽपि वा कोशलास्तेययुस्थानम् यत्र गच्छन्नियोगिनः पुरुषो रामचरितम् श्रवणैरुपधारयन् आन्द्रुशंस्य वरो राजन् कर्मभन्थै विमुच्यते राजोवाच कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः तस्मिन् वा तेन्ववर्धन्त प्रजाः ईश्वरो श्रीशुक उवाच अतादिशद्दिग्विजये भ्रातॄन् त्रिभुवनेश्वरः आत्मानं दर्शयन् स्वानां पुरीमैक्षतसानुगः आसीक्त मार्घां गन्धोतैखरीणां मतसीकरैः स्वामिनं प्राप्तमालोक्यमत्तां वा सुतारमिव प्रासादगोपुरः शभाचैत्यदेवगृहादिशो विन्नस्त्य हेमकलसैपदा गाभिश्च भूकैःसवृन्दैरम्भाभिपट्टिकाभिसुभाससाम् आतर्षैरं सुखैषग्भिकृतकौतुकतोरणं तमुपेयुस्तत्र तत्र पौरा अर्हणबाणयः आशिषो युयुजोर्देव पाहि मां प्राग्ध्वयोद्धृताम् ततः प्रजा वीक्षपतिं चिरागतं तितृषयोत्सृष्टगृहास्तृतयो नराहा आगृह्य कर्म्याणि अरविन्दलोचनम् अदृप्तनेत्राकुसुमैरवाकिरन् अतः प्रविष्ट स्वगृहं जुष्टं स्वै पितृमोधुम्बरत्वारैर्वैधूर्यस्तम्भपङ्क्तिभिः स्थलैर्मारकथैस्वेच्छैर्भातस्फटिका भित्तिभिः चित्रस्रग्भिपट्टिकाभिर्वासो मणिगणां सुखैः मुक्तापलैश्चितुल्लासैकान्तकामोपद्दिभिः धूपैदीपैः शुरभिभिर्मण्डितं पुष्पमण्डनैः स्त्रीपुम्भिस्तुरसङ्कासैर्जुष्टं भूषणभूषणैः भूशन तस्मिन् स भगवान् रामस्निग्धया प्रिययेष्टया रेमेश्वरा मधीराणां वृषभत् सीतया किल बुभुजे च यदा इति श्रीमद्भागवते महापुराणे नवमस्कन्धे श्रीरामोपाक्याने एकदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दगोविन्द सद्गुरुनाथमहराज् की जय